ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे एकोनविंशोऽध्यायः वसवास इति तस्यैव च श्रुत्वा भूपते कौशिको मुलिः स्वस्य प्रत्युवासेदम् हरिश्चन्द्रं तथा नृपे राजन्ति समिभम् पुण्यम् पावनं पापनाचनम् स्नानं कुर्मः भागे पितॄणां तर्पणम् तथा कार्य शुभे च भवति हे सीथे स्नात्वा विशाम्पते दानं ददतु शास्त्रे पुण्यतिथेति पावने प्राप्यति संह पुण्यम् अस्नात्वा स्वभवेदात्मा भूय इति सायम्भुवो भवेत् तद्मास्ति तव वैराजम् कुरुपा पुण्यम् स्वशक्तितः दर्शयिष्यामि मार्गं ते गन्तास्ति नगरं ततः आगमिष्यामि अहं मार्ग दर्शनार्थं नवानगरे त्वया साध्य काकुत्थे तव दानेन तोषितः तच्छ्रुत्वा वचनं राजा मुनेकपरमण्डितम् वा संस्कृतार्यविधिवत् नातुम् अभ्याययो नदीम् बन्धयित्वा हयम् रुक्षे मुनैर्वाक्येन मोहितः अवश्यम् भावि योगेन तद्वशस्तु तदा भवत् राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवतः विश्वामित्रमुदम् स्वामिन् दानं ददामि ते यदिच्छसि महाभागे तत् ते दास्यामि गावो भूमिर्हरण्यं च विजादेयम् मे किमप्यस्ति कुतम्बे तद्वतं पुर राजसूये मख श्रेष्ठे मुनीनां सन्निधोऽपि तस्मात् सम्यक् सम्प्रात तेथेस्मिन्त्र वरे मुरे यत्ते वाञ्छितं ब्रूहि ददामि तव वाञ्छितं विश्वामित्रोवाच मया पूर्वं सुधा राजन् कीर्ति ते विपुला भुवि वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले हरिश्चन्द्रो न सूर्यवंशे महीपतिः तादृशो नृपति ता राता न भूतो न भविष्यति पृथिव्यां परमोदारिशङ्किशङ्को त्रीशं, तनयो यथा अत त्वां प्रार्थयाम्यद्य विवाहो मेति पार्थिव पुत्रस्य च महाभागे तदर्थं देहि मेधनम् राजोवाच विवाहं कुरु विप्रेंदे ददाभि प्रर्थितं तव यदिच्छसि धनं कामं दाता तस्यास्मिन् इच्छितम् ज्ञातवाच इत्युक्ते कौचिकेन वञ्चनात् तत्परो मुनिः उद्भावमायां गान्धर्वीं पातिवायाप्य दर्शयन् कुमारे सुकुमार च कन्या च दशवाषि एक तय कार्यम्य है राजसूक भविष्य विप्रपुत्र विवाह तुवा वचन राज तोह तथे ना नोवाचापं वच तथा तेन दर्शितमार्गोऽसु नगरं प्रति जग्मवान् विश्वामित्रोऽपि राजानम् वञ्चयित्वा श्रहे विधि तावत् विश्वामित्रो ब्रवीन्द्रपम् वेति मध्येन्द्रभां देहे दानं यथेप्सितं राजोवाच किं ते भीष्टं द्विज ब्रूहि ददामि वंशितं किय संसारे यः कामोऽस्मि साम्बतम् व्यर्थं हि जीवितं तस्य विभवं प्राप्ये न वै नोपातं यशुद्धं प्रलोकसुखपदम् राज्यं देहि महाराज वराय स गयेश्वरसरत्नाढ्यम् वेदि मध्येति पावने मोहितो मायया तस्य श्रुत्वा ते मुने नृपे दच्छामित्युक्तवान् राज्यम् अविचार्य यदृच्छय विहितमिति सम्प्रे विश्वामित्रोति निष्ठुर दक्षिणां देहि राजेन्द्र दान महापते महामते दक्षिण दानलभ्रवी तस्मदान यथोत्ता देिण सुधाराजा तमुवाचा विस्म ब्रूह की धनम तोभ्यम दवान्मय अधुना दक्षिण निष्क्रिय सारो वदता वै प्रमाणकम् दानपूर्त्यैपदास्यामि स्वस्थो भवत बोधन विश्वामित्र सुत श्रोत्वा तमाह मे दिनेपतिं हे साधं भारद्वयं सार्धं दक्षिणां देहि साम्प्रतं दास्यामिति पथि श्रुत्य तस्मै तदैव सन् सैनिकस्य वीक्ष्यमाणः समागतः दृष्ट्वा महीपतिं व्यग्रम् मुदान्वितः श्रुत्वा तेषाम् बचोरा च नोक्त्वा किञ्चित् शुभाशुभम् चिन्तयन् स्वकृतं गर्म ययोहन्तः पुरे सर्वस्वं यत् समर्पितं वञ्चितोहं द्विजेनाश्रे पुने पाठश्चरैरिवे राजं सोपस्करं तस्मै मया सर्वं प्रतिश्रुतं भारद्वयं सुवर्णस्य साधं च दक्षिणा पुनः किं करोमि भ्रष्टा न ज्ञातं कपटं मुनेः प्रसारितोऽहं सहसा ्रह्मणेन तपस्विन न जाने दैव कार्यं वै हादैव किं भविष्यति इति चिन्ता परो राजा गृहं प्राप्नोति विह्वलः पतिं चिन्ता परं दृष्ट्वा राज्ञी पत्रस्य करणं किं प्रभो बिमला भासि चिन्ता ब्रूहि साम्प्रतम् वनः समायातो राजसूय कुतः पुराय कस्माच्छोचि राजेन्द्र शोकस्य कारणं वद नारातिर्विद्यते क्वापि बलवान् दुर्बलोऽपि पर्णोऽपि सुसन्तुष्टोऽसि कुत भूतले चिन्तया क्षीयते देहो नास्ति चिन्ता समा मृतिः त्यजतान्द्रजादूरे स्वस्थ है तिहा वाक्यी न राधिपहे प्रवाच किंचितिच्चिता शुभुभ शुभाशुभं न चाराशो चिंता नृपे सुख पीछे देशुभ्रे देशद्रा भूमिहे प्रातरुत्था चिंता तो यावत् सन्ध्यादिका क्रिया करोति न प्रति तावत् विश्वामित्र समागतः चत्रा निवेदितो राज्ये मुनिः सर्वस्वहारकः अगत्यो वाच राजानं प्रणमन्तं पुनः पुनः विश्वामित्र उवाच राजन्त्यज स्व राजं देहि वाच प्रतिश्रुतं राजेन्द्रत्य वाग्भवसाम्प्रतम् हरिश्चन्द्रवाच स्वामिन् राजं तवेदम्बे मया दत्तं किल अधुना तक्तान्यत्र गम्भीषामि मा चिन्तां नमते ब्रह्मन् गृहीतं विधिवद्विभो सुवर्ण दक्षिणां अशक्तस्मे अधुना दधा तेव ये सीधना पुन कामी दक्षिणापति पुत्र भार्च माधवी राज्यमस्मेपत्त वै मैद्या अत्यश्वर्ध संयुक्तम् रत्न समन्वितं चत्वारीराणि सर्वं चास्मै समर्पितम् अयोध्यां गमिष्यामि कुत्रचिद्वनगौहरे गृह्णाश्रिदम् अने सम्यक् राज्यं सर्व समृद्धिमयत् इत्याभाष्यसुतम्भार्यां हरिश्चन्द्रः समन्दिरायत् विनिर्गतः सुधर्मात्मानयन्तं दियोत्तमं पर्यन्तं भ्रौपतिं वीक्ष्य भार्यापुत्रौ भवपि चिन्तासुरो सुधीनास्यो जगमतु पृच्छतः सदाय हा हाकारमः नासिन् नगरे वीक्षता सदा चक्रुषु प्राणिनः सर्वे साकेतः राजन् किं कृतं कर्म कुतः क्लेश समागतः वञ्चितोऽस्मि वञ्चितोऽसि महाराज विधिना पण्डितेन सर्वे वर्णातु दुःखम् आत्मयूत्तमीपतिं विलोक्य भार्या साधम् पुत्रेण च महात्मनः ब्राह्मणं तन्तु दुराचारं पुरोगतः द्रोतोऽयम् इति भाषन्तो दुःखा ब्राह्मणादयः निर्गत्य न गता तस्मात् विश्वामिश्रीश्वरम् गच्छन्तं तमु वाचैं समेत्य निश्वरं वचः क्षिणायः सुवर्णं मे दत्वा गच्छन् अधिपये अहं दास्यामि वा मया त्यक्तं सुवर्णकम् राज्यं गृहाण वा सर्वं लोभश्च धृति वर्तते दत्तं चन्मन्यसे राजन् देहि यत्तत्प्रति श्रुतम् एवं भवन्तं गाधेयम् हरिश्चन्द्रो महीपतिः प्रणिपत्य सुधीनात्मा कृताञ्जलि पुटो ब्रवीत इति महापुराणे चादृशदाव्याम् शैतायाम् सप्तमस्कन्धे कौशिकाय सर्वस्वसमर्पणम् तद्दक्षिणादानवर्णनं नाम एक एकोनविंशति विंशोऽध्याय श्रीजगदम्बिकाय भस्तु